सरस्वती सुप्तं श्रीगुरुभ्यो नमः हरिः ॐ इयमददाद्रभसमृणच्युतं दिवो ओ दासंभद्रयश्वाय दाशुसे ए या अस्मिन् तमाचक सदा आ ए दात्राणि तविषा सरस्वती इयं सुस्में बिभिर्विसखा इवा ऋजस्रालो गिरिणां तविषेभिरुमिर्मिर्भिः पारावतग्निमवशेषु व्यक्तिभिः सरस्वती मां विभाषे मधीतिभिः सरस्वती देवनि धोनिं बर्हय प्रजां विश्वस्य विषयस्य मायिनः उत चितेभ्यो वनीरविन्दो विषमे एभ्योऽश्रवो वाजिनीवती प्रण ॐ देवी सरस्वतीर्वादेर्वाजिनिवती धीना मद्वित्र्यवतु यस्त्वा आ दे॒वी सरस्वत्योपभृतिधने एहिते इन्द्रं न वित्रत्तुर्ये ए न त्वं देवि सरस्वत्यवाज वाजे ए सुवाजिनी रदा आपूषेव न शनिम् उत स्या न सरस्वती घोराहिरन्न्यवर्त्नी पृतग्निवष्टि सुष्टुतिं यस्या आ अनन्तो अहृतत्वे सश्चरिष्णोरा अनव अवसरति रोरुवत् सानो विश्वा अतिदृश्से ऐर॒न्या ऋ॒तावरीम् अतन्नहे एव सूर्यः उत न प्रिया प्रियासु सप्त स्वसासु जष्टा सरस्वती स्तोभ्या भूत आपप्रसी पार्थिवाण्युरुद्रजो ॐ अन्तरिक्षम् सरस्वती ददस्पा आतु त्रिशधस्था पञ्चजाता वर्धयन्ति वाजे एव वाजे हव्या आ भूत प्रया महिम्ना महिना आशुचे कृते द्युम्ने विरण्या आपसा मपस्तमा आमपस्तमाँहति विध्वने एकृतोपस्तुत्या आ चिकुतसा सरस्वती भिनो ॐ शिवस्यो मापस्फरी पयसा मान आधक द्युतस्वनसख्या वेश्या आ च मा त्वच्छेत्राण्यरणानि गन्म प्रचोदसा धाय सा शस्त्र प्रभाबधानां दध्ये एव याति विश्वाहा अपो महिना एका आ चेतः सरस्वती नदीनां सृचे एयति गिरिव्य आसमुद्रा रायश्चेतं ते भुवनस्य भूरे एघृतं पयो दुर्हेनाहुषाय सभावावृदे नर्यो योषणासु वृषाशिषु वृषभो यज्ञिया आशु स वाजिनं सातये एतन्वं मा मृजित उत स्या न सरस्वतीजुषालोपस्रवतसुभगा यज्ञे अस्मिन् मितर्योभिर्नमस्यैरियाना राजाजुजाचुदुत्तरासखिव्य इमा जुह्वा आन्नायुम्म युप्म प्रदानमो ओभि प्रति स्तोमं सरस्पसिजुषस्व तौ शर्मन् प्रि॒यतमे दधा आन्ना उपस्थेयाम शरणं न वृक्षम् अयमूते सरस्वशिवशिष्ठो द्वारा आवतस्य सुभगेव्या आवर्धशुभ्रे स्तुवतेरा आ शिवाजान यूयं पा आत स्वस्तिभि सदा आन्नः बृहदुगायि सेवचो ओ सूर्या सरस्वतीभिन्महया सुभृक्तिभिः सोमये ऐरवसिष्ठदसी उभे यत्ते ए महिना शुभ्रे अंधसे अधिक्षीयन्ते पूरव सानो ॐ बोधभित्री मरुसखाचोद राधो मघो नाम भद्रमिद भद्रा कृणवत् सरस्वत्यकवारी चेतति वाजिनीयवती गृणानाजमदग्निवत् स्तुवानाच्च वसिष्ठवत् जनियन्तो नन्वग्रवः पुत्रि यन्त सुदानवः सरस्वन्तं हवामहे ये ते ए सरस्व उर्मयो मधुमन्तो वितश्च्युतः ते भे नो विता भव पिपिसं सरस्वतस्तनं जो विश्वदर्शतः भक्षीमही प्रजामि स अम्बितमे नदीतमे देवितमे सरस्वती अप्रसस्ता इव स्मसि प्रशस्तिमम्बनस्मृति त्वे विश्वा आ सरस्वतीचितायुंसीदेव्यां सु नहो ओ त्रे सुमस्व प्रजां दे एवेदि इमा ब्रह्म सरस्वतीजुषस्ववाजिनिवती या ते प्रियादेवे बलीप्रिया देवे वाजे जुह्वती पावकान् यज्ञं वष्टुधिया वसुः चोदयत्री सुनितान्नां ते तन्ति सुमतीनां यज्ञं दधे सरस्वती महो अर्न सरस्वती प्रचेतयति केतुना यो सरस्वती देवयन्तो श्मन्ते सरस्वतीमध्वरे तायमा आने सरस्वतीं सुकृतो ओ आह्वयन्त सरस्वती दाचेवार्यं दातु सरस्वतीया शरथं जयाथ स्वधाभिर्देवी प्रत्यभिमदन्ति सद्यास्मिन् बर्हिषि मालेयश्वानमीवा इष आदेशस्मे सरस्वतीं यां पितरो हवना यज्ञमभिनक्षमाणा सहस्रर्घमृडोऽत्र भागं राजस्पोषं यजमाने सुदेहि आ नो दिवो बृहतां पर्वतादा सरस्वती जयतादन्त यज्ञम् हवं देवीजुषुञ्जुजुषाडां कृताति एषग्मां नो वचं वुशती शृणोतु राकामहंसूं सुभवा आं सुषु हुवे शृणोतु न सुभगां बोधतुत्माना आ सव्यत्तपः सुत्याच्छिद्यमानया ददा आतु वीरं स तदा आयमुक्थम् यास्ते ए राके सुमतय सुपेशो याभिर्ददा आसिदासुसेवसु ओ साभिर्णो अद्य सुमना आ उपागैः सहस्रपोषं सुभगे रदा आनां शि एवाले पृथुष्टुके या देवानामसि स्वसा आं जुहस्वशब्दमाहुतं प्रणां दे एविदि यासु सुषमा आ बहुसुवरीं तस्यै विस्पत्न्यै ऐहवि श्रनिवाल्यै द्योतन या गुङ्गुर्या शिनिवाली या राका या सरस्वतीं इन्द्राणि मह्व ऊतये एव वरुणालिं ॐ शान्तिः शान्तिः शान्ति हरिः ॐ तस्सत् श्रीरामकृष्णार्पणमस्तु